गर्गसंहिता खण्डम् एय् बलभद्रखण्डम् अध्यायं तर्टीन् दुर्योधन उवाच बलभद्रस्य देवस्य प्राड्विपाकमहामुने नाम्नाम् सहस्रम् मे ब्रूहि गुह्यम् देवगणैरपि प्राड्विपाक उवाच साधु साधु महाराज साधुते विमलम् यशः यत्पृच्छते परमिदम् गर्गोक्तम् देवदुर्लभम् नाम्नाम् सहस्रम् दिव्यानाम् वक्ष्यामि तव चाग्रदः गर्गाचार्येण गोपीभ्यो दत्तम् कृष्णातडे शुभे ओम् अस्य श्रीबलभद्रसहस्रनामस्तोत्रमन्त्रस्य गर्गाचार्य ऋषिः अनिष्टुप्ः सङ्गर्षणः परमात्मा देवता बलभद्रयिदि बीजम् जेवतीति शक्तिः अनन्त इति कीलकम् बलभद्रप्रीत्यर्थे जपे विनियोगः अध्यानम् स्फुरदमलगिरीडम् किङ्गिणी कङ्गणार्थम् चलदलकपोलम् कुण्डलश्रीमुकाम्जम् तुहि नगिरिमनोज्ञं नील मे काम्बराढ्यं हलमुसलविशालं कामपालं समीडे ओम्बलभद्रो रामभद्रो रामसङ्कर्षणोच्युदः रेवतीरमणो देवकामपालो हलायुधः नीलाम्बर श्वेतवर्णो बलदेवोच्युदाग्रजः प्रलम् भग्नो महावीरो रौहिणेह्यप्रतापवान् तालाङ्गोमुसलीहली हरिर्यदुवरो बली सीरपाणिपद्मपाणिर्लगुडी वेणुवादनः कालिन्दिभेदनो वीरो बलप्रबल ऊर्ध्वगः वासुदेवकलानन्दसहस्रवदनस्वराड भर्ता वासुदेवो वसुत्तमः यदूत्तमो यादवेंद्रो माधवो वृष्णिवल्लभः द्वारकेशो माधुरेशो दानीमानी महात्मनः द्वारकेशो माधुरेषो दानीमानी महामनाः पूर्णपुराणपुरुषपरेश परमेश्वरः परिपूर्णतमः साक्षात् परमः पुरुषोत्तमः अनन्तशाश्वतशेषो भगवान् प्रकृतेः परः जीवात्मा परमात्मा जह्यन्तरात्मा ध्रुवो व्ययः चतुर्व्यूहश्चतुर्वेद चतुर्मूर्तिश्चतुष्पदः प्रधानम् प्रकृतिसाक्षी सङ्घादसङ्घवान् सखी महामना बुद्धिसखश्चेदोऽहङ्कार आवृतः इन्द्रियेशो देवातात्मा ज्ञानम् कर्म च शर्म च अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः विराट्सम्राट् मकौखश्च धारस्तास्नुश्चरिष्णुमान् फणीन्द्रफणिराजश्च सहस्रफणमण्डितः फणीश्वर फणि पनी स्फूर्ति कूत्कारी चेत्करप्रभुः मणिभारो मणिधरो विदली सुदलितली अदली सुतलेशश्च पादालश्च तलातलः रसातलो भोगिदल स्फुरद्दन्तो महातलः वासुकिशङ्कचूडाभो देवदत्तो धनञ्जयः कबलाशो वे गदरो धृतराष्ट्रो महाभुजः वारुणी मदमत्ताङ्गो मदभूर्णिदलोचनः पद्माक्षपद्ममाली च वनमाली मधुश्रवाः कोडिकन्दर्पलावण्यो नागकन्यासमर्चिदः नूपुरीकडिसूत्री च कडगी कनकाङ्गली मुकुडि कुण्डली दण्डि शिखण्डी खण्डमण्डली कलिकलिप्रियकालो निवादकवचेश्वरः संहारकद्रो द्रवयुकलाग्निप्रलयोलयः महाहिपाणिनशास्त्रभाष्यकारपतञ्जलिः कात्यायनः पक्वीमा भस्फोडायन उरङ्गमः वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः कृष्णो विष्णुर्महाविष्णुप्रभविष्णुर्विशेषविद हंसो योगेश्वर कूर्मो वाराहो नारदो मुनिः सनककपिलो मध्यकमठो देवमङ्गलः दत्तात्रेयप्रधुर्वृद्ध ऋषभो भार्गवोत्तमः धन्वन्तरिर् नृसिंहश्च कलिर्नारायणो नरः रामचन्द्रो राघवेन्द्रकोसलेन्द्रो रघुद्वहः काकुस्तकरुणासिन्धु राजेन्द्रसर्वलक्ष्मणः सूर्योदासरधिस्त्राता कौसल्यानन्दवर्धनः सौ मित्रैर्भरदोधन्वी शत्रुघ्नशत्रुतावनः निषङ्गी चरीज्या कथकोष्टकः का। बद्ध गोधाङ्गुलित्राणः शुभकोदण्डभञ्जनः यज्ञत्रादा यज्ञभर्ता मारीचवधकारकः अतुरारिताडकारिर्विभीषणसखायकृदपितृवाक्यकरो हर्षिविराधारिर्वनेचरः मुनिर्मुनिप्रियचित्र कूडारण्यनिवासकृदकबन्धः दण्डकेशो रामो राजीवलोचनः मदङ्गवनसञ्चारीनेता पञ्जवडीपदिः सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः सेदुबन्धो रावणारिर्लङ्कादहनतत्परः रावण्यरिपुष्पकस्थो जानकी विरहातुरः अयोध्या पदि श्रीलवणाजिसुरार्चिदः सूर्यवंशी चन्द्रवंशी वंशी, वंशी, वंशी वाद्यविशारदः गोपतिर्गोपवृन्देशो गोपो गो गोपीशदावृदः गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः पूदनारिर्बकारिश्च तृणावर्तनिपातकः अकारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः अरिष्टः केशीशत्रुर्व्योमासुरविनाश्यकृद अग्निपानो दुग्धपानो वृन्दावनलताश्रुदः यशोमधीसुदोभाव्यो रोहिनीलालिदशिशुः रासमण्डलमध्यस्थो रासमण्डलमण्डनः गोपी काशद यूधार्ची शङ्खचूडवदोद्यदः गोवर्धनसमुद्धर्त शक्रजद्व्रज रक्षकः वृषभानुवरोनन्द आनन्दो नन्दवर्धनः नन्दराजसुधश्रीषत्कङ्घारि नन्दराजसुदश्रीशकंसािः कालियान्तकः रजकारिर्मुष्टिकारिकंसकोदण्डभञ्जनः चाणूरारिक्कूडकन्दा शलारिस्तोलशा शलारिस्तोशलान्तकः कंसभ्रादृनिकन्दाजमल्लयुद्धप्रवर्तकः गजहन्ता कंसहन्ता कालहन्ता कलङ्कः माघधाजिर्यवनः पाण्डुपुत्र सहायकृद चतुर्भुजमलङ्गः सौम्यश्चौपगविप्रियः युग्धृ दुग्धवसख मन्त्रीमन्त्रविशारदः वीरः वीरमथनः शङ्खचक्रगदाधरः रेव चित्तहर्ता च रेव हर्षवर्धनः रेव प्राणनाथश्चरेव प्रियकारकः ज्योतिर्ज्योतिष्मदी भर्ता रैवताद्रिविहारवद दृदिनाथो धनाध्यक्षो धनाध्यक्षो धनेश्वरः मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः दुर्योधनगुरुर्गुर्वी गदा शिक्षा करः क्षमी मुरारिर्मदनो मन्दो निरुद्धो धन्विनाम् वरः कल्पवृक्ष कल्पवृक्ष कल्पवृक्षवनप्रभुः श्यमन्तकमनिर्मान्यो गाण्डी कौरवेश्वरः कुम्भाण्डखण्डनकरकूपकर्णप्रहारकृद सेव्योर्यैव दजमाद मधुमाधवसेविदः बलिष्ठपुष्टसर्वाङ्गो हृष्टपृष्टप्रहर्षिदः वाराणसीगदक्रुद्ध सर्वपौण्ड्रकखादकः सुनन्दीशिखरी शिल्पी द्विविदाङ्ग निषूदनः हस्तिनापुरसङ्कर्षीरधिकौरवपूजितः विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः महाराजत्रधरो महाराजोपलक्षणः सिद्धगीदसिद्धकदशुक्लचामरवीजिदः ताराक्षकीरनासश्च बिम्बोऽष्टः सुस्मितच्छविः करीन्द्रकरदोर्दण्ड प्रचण्डो मेकमण्डलः कपाडवक्षापीनां सपद्मपादस्फुरद्युतिः महाविभूतिर्भूदेशो बन्धमोक्षी समीक्षणः चैद्यशत्रुशत्रुसन्धो दन्तवक्त्रनिषूदघः अजादशत्रुपापघ्नो हरिदाससहायहृद शालबाहुशाल्वहन्तातीर्थयायी जनेश्वरः नैमिषारण्ययात्रार्थी गोमदीतीरवासकृद गण्डकीस्नानवाञ्छ्रग्वी वैजयन्ती विराजिदः अम्लानपङ्कजधरो विपाशी शोणसम्प्लुदः प्रयागतीर्थराजश्च सरयू सेतुबन्धनः गयाशिरश्च धनदपौलस्य पुलः श्रमः गङ्गासागरसङ्गार्थी सप्तगोदावरीपदिः वेणी भीमरधी गोदा ताम्रपर्णी वडोदका कृतमाला कावेरी जपयस्विनी प्रदीजी सुप्रभा वेणी त्रिवेणी सरयूपमा गंगा कृष्णा पम्बानर्मदा ज गङ्गाभागीरथीनदी सिद्धाश्रमप्रभासश्च बिन्दुर्बिन्दुसरोवरः पुष्करस्सैन्धवो जम्बु नरनारायणाश्रमः कुरुक्षेत्रपति रामो जामदज्ञो महामुनिः इल्ल्वलात्मजहन्ताज सौदामा सौख्यदायकः विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी वसन्तमालदीकर्षी गतो गद्योगदाग्रजः गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः रङ्गवल्लीजलाकारो निर्गुणसगुणो बृहद दृष्टश्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः अनाधिराधिरानन्दप्रद्यधामनिरन्तरः गुणा ती दसमसाम्यत् समदृक् निर्विकल्पकः गूढाव्यूढो गुणो गौणो गुणभासो गुणवृदः नित्योऽक्षरो निर्विकारोऽक्षरो जस्रसुखो मृदः सर्वगः सर्ववित् सार्धसमबुद्धिः समप्रभः अक्लेद्योच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापककविः अध्यात्मकोधिभूतश्चाधिदैवस्वाश्रयाश्रयः महावायुर्महावीरश्चेष्टारूपतनुस्थितः प्रेरको बोधको बोधित्रयो विंशतिको गणः अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः निरोधो रोध ऊधिमान् मन्वन्तरावतारश्च मनोर्मनुसुदो नखः स्वयम्भुशाम्भवः शङ्घुस्वयम्भुवसहाय्य हृद सुरालयो देवगिरिर्मेरुर्हे मार्चितो गिरिः गिरिशो गणनाथश्च गिरीशो गिरी गिरिगह्वरः विध्यं स्त्रिकूडो मैनाकसुवेलपारिभद्रकः पतङ्गशिशिरकङ्गो जारुद्धे शैलसप्तमः तालञ्जरो बृहत्सानोर्धरीभृन्नन्दिकेश्वरः स्थानस्तरुराजश्च मन्दारपारिजातकः सन्तानस्तरिराजश्च मदारपरिजातकः जयन्तकृज्जयम् ताङ्गो जयन्ती दिग्जयाकुलः पुत्रः देवलोकश्च शशीकुमुदबान्धवः नक्षत्रे स सुधा सिन्धुर्मृगः पुष्यः पुनर्वसुः अस्तोऽभिजिच्य श्रवणो वै भास्करोदयः ऐन्द्रः साध्यः शुभः शुक्लो व्यदीपादो ध्रुवसितः शिशुमारो देवमयो ब्रह्मलोको विलक्षणः रामो वैकुण्ठनाथश्च व्यापि वैकुण्ठनायकः श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः असङ्ख्यब्रह्माण्डपदेर्गोलोकेशो गोलोकेशो पदिः गोलोकधामधिषणो गोपिकाकण्डभूषणः श्रीधार श्रीधरो लीला लीला धरो गिरिधरोधुरी त्रिशूली त्रिशूलीज बिभत्सी खर्घरस्वनः शूलसूच्यर्पितगजो गजचर्म तरोगजी अन्ध्रमालीमुण्डमाली व्याली दण्डकमण्डलुः वेदालभृद्भूतसङ्घकूष्माण्डगणसंहृदः प्रमदेश पशुपदे मृडानीशो मृडो वृषः कृदान्तकालसङ्घाजिकोडकल्पान्तभैरवः षडाननो वीरभद्रो दक्षयज्ञविघादकः कर्पराशी विशाची च शक्रिहस्तशिवार्दः पिनाकटङ्कारकरलच्छङ्कारनो बुधः पण्डितस्तर्कविद्वान् वै वेदपाढी श्रुतीश्वरः वेदान्तकृत्साङ्ग्यशास्त्रीमीमांसी कणनामभाक काणादीर्गौदमो वादिवादो नैयायिको नयः वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वदः वैयाकरणकृच्छन्दो वैयासप्राकृतिर्वजः पाराशरी संहितावित्काव्यकृन्नाटकप्रदः पौराणिकस्मृतिकरो वैद्यो विद्याविशारदः अलङ्कारो लक्षणार्थो व्यङ्गविद्धनवध्वनिः वाक्यस्फोटपदस्फोटस्फोटवृत्तिश्च सार्धिविद श्रृङ्गार उज्ज्वलस्वच्छोद्भूतो हास्यो भयानकः अश्वग्धो यवभोजी ज यवक्रीदो यवाचनः प्रह्लादरक्षकस्निग्धऐलवंशविवर्धनः गदाधिरम्भरीषाङ्गो विगाधेर्गाधिनां वरः नानामणिसमागीर्नो नानारत्नविभूषणः नानापुष्पधरपुष्पि पुष्पधन्वा पुष्पितः नानापुष्पधरपुष्पीपुष्पधन्वाप्रपुष्पिदः नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः नानावर्णमयो वर्णो नानावस्त्रधरः सदा नानापद्मकरकौशी नानाकौशेयवेशदृगरत्नकम्बलधारीज धौधवस्त्रसमावृदः उत्तरीयतरपर्णो खनकञ्चुकसङ्घवान् पीतोष्णीष सितोष्णीषो रकृतोष्णीषो दिगम्बरः दिव्याङ्गो दिव्यरजनो दिव्यलोकविलोकितः सर्वोपमो निरुपमो गोलोकाङ्गी कृताङ्गणः कृतस्वोत्सङ्गगोलोकुण्डलीभूत आस्थितः माधुरो माधुरादरिशी चलत्कञ्चनलोचनः लोचनः दधिहर्ता दुग्धहरो नवनीदसिदाशनः तक्रभुक्तक्रहारी च दधि चौर्यकृतश्रमः प्रभावदी बद्धकारो प्रभावदीबद्धकरोदामि दामोदरोदमी सिकतभूमिचारी च बालकेलेर्व्रजार्भकः धूलिधूसरसर्वाङ्गकागपक्षधरसुधीः मुक्तकेशोवत्सवृन्दकालिन्दीकुलवीक्षणः जलकोलाहलीगुलीपङ्कप्राङ्गणलेपकः श्रीवृन्दावनसञ्चारी वंशी वडतडस्थितः महावननिवासी च साधुप्रियतमसाध्यसाध्वीशो गदसाध्वसः रङ्गनाथो विढ्ढलेशो मुक्तिनाथोऽकनाशकः सुकीर्तिसुयशास्फीदो यशस्वी रङ्गरञ्जनः रागष्टगो रागपुत्रो रागिणीरमणोत्सुकः दीपकोमेकमल्कारश्रीरागोमालकोशकः हिन्दो लोभैरवाक्यश्च स्वरजादिस्मरो मृदुः कालो मानप्रमाणश्च स्वरगम्यकलाक्षरः शमिष्यामीषदानन्दशदयामः सदक्रदुः जागरसुप्त असुप्त सुषुप्तस्वप्न उर्वरः नूर्जस्वोर्जो नर्जरश्च विज्वरो ज्वरः जाम्बवान् जम्बुका शङ्गी जम्बुद्वीपो द्विपारिहा साल्मलिसाल्मलिद्विभप्लक्षप्लक्षवनेश्वरः कुशधारी कुशकौशि कौशिख कुशविग्रहः कुशस्थलीपथि काशीनाथो भैरवशासनः दास्यार्हसात्त्वतो वृष्णिर्भोजोऽन्धकनिवासकृद अन्धको दुन्धुभिर्दोदप्रद्योधसत्त्वदाम्पदिः सूरसेनोऽनुविषयो भोज वृष्ण्यन्धकेश्वरः आहुक सर्वनीधिज्ञ उग्रसेनो महोग्रवद उग्रसेनप्रिय प्रार्थ्य पार्थो यदुसभापदिः सुधर्माधिपति सत्त्वमृष्णिचक्रावृतोऽभिषक सभाशीलसभादिपसभाग्निश्च सभारविः सभाचन्द्रसभासभादेवसभापदिः प्रजार्धतप्रजाभर्ता प्रजापालनतत्परः द्वारका दुर्गसञ्जारि द्वारकाग्रहविग्रहः द्वारका दुःखसंहर्ता द्वारका जनमङ्गलः जगन्मादा जगत्राता जगद्भर्ता जगत्पिता जगदम् जगद्बन्धो जगद्भ्राद जगन्मित्रो जगत्सखः ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधद ब्रह्मपादरजस्पर्शी ब्रह्मपादनिषेवकः विप्राङ्क्रिजलपूदाङ्गो विप्रसेवापरायणः विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः विप्रपादजलार्द्राङ्गो विप्रपादोदगप्रियः विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुकः अक्षौहिणीवृदो योद्धा प्रतिमा पञ्च संयुधः प्रयायीजरथ कोरिजयध्वजः महारथश्चाधिरथो जैत्रम् स्यन्दनमास्तिदः नारायणस्त्री ब्रह्मास्त्री रणश्वागीरणोद्भटः मदोत्कटो युद्धवीरो देवासुरभयंकरः करिकर्णमरुत्प्रेजत् कुन्तलव्याप्तकुण्डलः अग्रगो वीरसम्मर्दो मर्दलोरणदुर्मदः भडप्रतिभटप्रोच्यो बाणवर्षी सुदोयदः खड्गखण्डितसर्वाङ्गषोडशाब्धषडक्षरः वीरघोषक्लिष्टवपुर्वज्राङ्गो वज्रभेदनः रूग्णवज्रो भग्नदण्डशत्रुर्निर्भत्सनोद्यतः अट्टहासपट्टधर पट्टराज्ञीपदिः पडुः मनाग हुङ्गारो गर्जितस्वनः साधुभक्तपराधीनस्वतन्त्रसाधुभूषणः अस्वतन्त्रसाधुमयसाधुग्रस्तमनामनाग साधुप्रियसाधुधनसाधुज्ञादिस्तुधाकनः साधुचारी साधुचित्तः साधुवासी शुभास्पदः इति नाम्ना सहस्रम् तु बलभद्रस्य कीर्तिदम् सर्वसिद्धिप्रदम् नृणां चतुर्वर्गफलम् फलप्रदम् शतवारम् पठेद्यस्तु स विद्यावान् भवेदिह इन्दिराम् च विभूतिम् चाभिजनम् रूपमेव पठनात् सर्वम् प्राप्नोति मानवः गङ्गाकुलेध कालिन्दिकूले देवालये तथा सहस्रावर्तपाठेन बलासिद्धिप्रजायते पुत्रार्थी लभते पुत्रम् धनार्थी लभते धनम् बन्धात् प्रमुच्यते बन्धोरोगी रोगान्निवर्धते अयुदावर्तपाठे च पुरश्चर्याविधानतः होमतर्पण गोदान विप्रार्चनकृतोऽद्यमाद पटलम् पद्धतिं स्तोत्रम् कवचम् दुविधाय च महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरः मत्तेभकर्णप्रहिदा मदङ्गे मदगन्धेन विह्वला अलङ्करोदितद्वाराम् भ्रमद्भृङ्गावलीभृशन् निष्कारणपडेद्यस्तु प्रीत्यर्थम् रेवदीपदेः नाम्नाम् सहस्रम् राजेन्द्र स जीवन्मुक्त उच्यते सदा वश्ये तस्य गृहे बलभद्रोच्युदाग्रजः महापादक्यपि जनः पडेन्नाम सहस्रकचित्वा मेरुसमम् पापम् भुक्त्वा सर्वसुखम् त्विका परात्परमहाराज भोलोकम् धाम यादि हि श्रीनारद उवाज इति श्रुत्वा च्युदाग्रजस्य बलदेवस्य पाञ्च बलदेवस्य पञ्चाङ्गम् हृदिमान्धार्थराष्ट्रसपर्यया सहितया परया भक्त्या प्राग्विपाकम् पूजयामास तमनुज्ञाप्याशिषम् दत्त्वा प्राग्विपाको मुनीन्द्रो गजाह्वय्यात् स्वाश्रमम् जगाम भगवतोन्नन्तस्य बलभद्रश्च परब्रह्मणकथाम् यशृणुदे श्रावयदे तयानन्दमयो भवति इदम् मया दे कथितम् सर्वार्थतं श्रीबलभद्रखण्डकम् शृणोदियो धाम हरेशयादिविशोकमानन्दमखण्डरूपम् इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राग्विपाकदुर्योधनसंवादे बलभद्रसहस्रनामवर्णनम्